नारदपुराणं पूर्वार्थम् अध्यायं फिफ्टि नैन् सनन्दन उवाच ततः स राजा सहितो मन्त्रिभिर्द्विजसत्तम पुरःपुरोहितं कृत्वा सर्वाण्यं तः पुराणि च गुरुपुत्रं समभ्यगाद महदासनमादाय सर्वरत्न तम् प्रददौ गुरुपुत्राय शुक्राय परमोचितं तत्रोपविष्टं तं कार्ष्णि शास्त्रदृष्ठेन कर्मणा पाद्यं निवेद्य प्रथमं सार्ध्यं गाञ्जन्ये स च तां मन्त्रदःपूजां प्रतिगृह्यद्विजोत्तमः पर्यपृच्छन्महातेजाराज्ञकुशलमव्ययम् उदारसत्त्वाभिजनो राजापि गुरुसूनवे आवेद्यकुशलं भौमौ निशसाद सोपि वैया वय्या सखिं भूय किमा कुशलमव्ययं किमागमनिमित्येव पर्यपृच्छद्विधानवत् सुख उवाच पित्राः भद्रं ते मोक्षधर्मार्थको विदः विदेहराज्यो ह्याद्यो मे जनको नाम विश्रुदः तत्र त्वं गच्छतुर्णं वै सदे प्रवृत्तौ च निवृत्तौ च सर्वं चेत्स्यत्यसंशयं सोऽहं पिदुर्नियो गात्वामुपप्रष्टोमिहागदः तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः कथं च मोक्षकर्तव्यो ज्ञानेन तपसापि वा जनक उवाच यत्कार्यं ब्राह्मणेनेह जन्मप्रभृदि तच्छृणु कृतोपनयनस्ताद भवेद्वेदपरायणः तपसा गुरुवृत्या च ब्रह्मचर्येण चान्वितः देवतानां पितॄणां च ह्यतृष्णश्चानसूयकः वेदानधीत्यनियतो दक्षिणामपवर्त्य च अभ्यनुज्ञामनुप्राप्य समावर्तेद वै समावृत्तस्तु गार्हस्थ्ये सदारो वसेद अनः सूयोर्यथान्यायमाहिताग्निरनादृदे उत्पाद्यपुत्रपौत्रांश्च वन्याश्रमपदे वसेद ताने वाग्नीन्यधान्यायम् पूजयन्नतिथिप्रियः सर्वानग्नीन्यधान्यायमात्मन्यारोप्य धर्मविद निर्ध्वं द्वो वीदरागात्मा ब्रह्माश्रमपदे वसेद शुक उवाच उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि न विना गुरुसंबासा ज्ञानस्याधिगमस्मृतः किमवश्यं तु वस्तु व्यमाश्रमेशु न वा नृप यदद् भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति जनक उवाच न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेद् न विना गुरुसम्बन्धा ज्ञानस्याधिगमस्तथा आचार्यप्लाविता तस्य ज्ञानं प्लव इहोच्यते विज्ञाय कृतकृत्यस्तु तीर्नस्तत्रो भयं त्यजेत् अनुच्छेदाय लोकानामनुच्छेदाय कर्मणां कृत्वा शुभाशुभं कर्म मोक्षो नामेक लभ्यते भाविधैकारणैश्चर्यम् बहुसंसारयोनिषु आसादयदि शुद्धात्मा मोक्षं हि प्रथमाश्रमे तमासाद्यदुमुक्तस्य दृष्टार्थस्य विपश्चिदः त्रिद्धाश्रमेषु कोन्वर्थो भवेत्परमभीप्सदः राजसां स्तामसांश्चैव नित्यं दोषान्विसर्जयेद् सात्विकमार्गमास्ताय पश्येदात्मानमात्मना सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि सम्पश्यन्नैव लिप्येत जले वारीचरगो यथा पक्षीवत्पवनाध्वर्ध्वममुत्रानुत्यश्नुदे विहाय देहं निर्मुक्तो निर्ध्वं ध्वशुभसङ्गतः अत्र गाधा पुरा गेदाशृणुराज्ञा यातिना धार्यते ज्योतिश्चात्मनि नान्यत्र रत्नं तत्रैव चैव स्वयं च शक्यं तद्द्रष्टुं सुसमाहितश्च तसा सुसमाहितश्च तसा न बिभेदि परो यस्मान्न बिभेदि पराच्चयः यश्च नद्वेष्टि न द्वेष्टिब्रह्मसम्पद्यते सदुर् यदा भावं न कुरुते सर्वभूते सुपापकं पूर्वैराचरिदो धर्मश्च दुराश्रमसंज्ञकः अनेन क्रमयोगेन बहुजादिषु कर्मणां कर्मणा मनसा वाचा ब्रह्म तथा संयोज्य तपसात्मानमीर्ष्यामुत्सृज्य मोहिनीं त्यक्त्वा कामं च लोभं च तदो ब्रह्मत्वमश्नुते यदा श्राव्ये च दृश्ये च सर्वभूतेषु च व्ययं समो भवति निर्द्वन्द्वो ब्रह्म सम्पद्यते तदा यदा च प्रणीतां च समत्वेन च पश्यति काञ्चनं चायसं चैव चा सुखदुःखे तथैव च शीतमुष्णं तथैवर्थमनार्थं प्रियमप्रियं जीवितं मरणं चैव ब्रह्म सम्पद्यते तदा प्रसार्येकयथाङ्गानि कुर्मः संहरदे पुनः तर्धेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा तमःपरिगदं वेश्य यथा दीपेन दृश्यते तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुं यदत्सर्वं प्रपश्यामि त्वयि बुद्धिमदाम्बर यञ्चान्यदपि वेतव्यं तत्त्वातो वेत्ति तद्भवान् ब्रह्मर्षे विदितश्वासि विषयान्तमुपागतः गुरोश्चैव प्रसादेन तव चैवोपशिक्षया तस्य चैव प्रसादेन पादुर्भूतं महामुनेः ज्ञानं दिव्यं समाधित्तं तेनासि विदितो विदिदो, विदिदो मम अर्थिकं तव विज्ञानमधिका वगधिस्तव अधिकं च तवैश्वर्यं तञ्जत्वं नावबुद्ध्यस्य बाल्याद्वासंशयद्वाभिभयाद्वाभि विम्मेशजाद उत्पन्ने चापि विज्ञाने नाधिगच्छन्ति ताङ्गतिं व्यवसायेन शुद्धेन मद्विधैश्चिन्नसंशयाः विमुच्य हृदयग्रन्थिनार्तिमासाधयन्ति तां मवांश्चोत्पन्नविज्ञानस्थिरबुद्धिरलोलुपः व्यवसाय हृदे ब्रह्यन्न साधयति तत्पदं नास्ति ते सुखदुःखेषु विशेषो नास्ति वस्तुषु नास् नात्सुख्यं नृत्यगीतेषु न राग उपजायते न बन्धुषु भयम् पश्यामि त्वामहाभागतुल्यनिन्दात्मसंस्तुतिम् अहं चत्वानुपश्यामि ये चान्येऽपि मनीषिणः अस्ति दम् परमं मार्गे अक्षयं चाप्यनामयं यद्भलं ब्राह्मणस्येह मोक्षार्थश्चापदात्मकः तस्मिन् वर्तस्ये विप्र किमन्यत् परिपृच्छसि स नन्दन उवाच यदच्छ्रुत्वा दुवचनं कदात्मा कृतनिश्चयः नात्मनात्मानमास्ताय दृष्ट्वा चात्मानमात्मना कृतकार्यसुखी शैश्रीरीं गिरिमासाद्यप्रहार पाराश्चर्यं ददर्श च शिष्यानध्यापयन्तं च पैलादीन्वेदसंहिताः आरह्णेयो विशुधात्मा दिवाकरसमप्रभः पितृर्जग्राहपादौ च जसादरं हृष्टमानसः तदो निवेदयामास पितुः सर्वमुदारधीः शुको जनकराजेन संवादं मोक्षसाधनं तच्छ्रुत्वा वेदकर्ता सौ प्रहृष्टेनाधरात्मना समालिङ्ग्यसुदं व्यासस्व स्वपार्श्वस्तं चकादश ततः पैलादयो विप्रावेदान्व्यासादधीत्यज शैलशृङ्गद्भुवं प्राप्ता या जनाध्यापने रदाीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने येकोन को Om